गर्गसंहिता खण्डम् फैव् मधुराखण्डम् अध्यायम् 8, कंसवधम् श्रीनारद उवाच आर्द्रचित्तम् नन्दराजम् वनितानाम् मनोरथम् स्मृत्वा शत्रून् हन्तुकामश्चक्रे युद्धम् बलाद्धरिः गृहीत्वा भुजदण्डाभ्याम् चाणूरम् गगने बलाद् चिक्षेपसहसा कृष्णो वादपद्ममिवोद्धृतम् आकाशात्पतिदसोऽपि तारकेवह्यथोमुखः उद्धायमुष्टिना कृष्णम् ताडयामासवेगदः तस्य मुष्टिप्रहारेण न च चालपरात्परः सद्यो गृहीत्वा चाणूरम् पादयामास भूदले भिन्नदन्तस्तु चाणूरक्रोधयुक्तो दो मदोत्कडः मुष्टिद्वयेन श्रीकृष्णम् तताडहृदि मैथिल गृहीत्वा कारयोस्तम् वै कराभ्याम् भगवान् स्वयं। कंसस्याग्रे भ्रामयित्वा सर्वेषाम् पश्यताम् नृप आदयामास भूपृष्ठे कमण्डलुमिवार्भकः श्रीकृष्णस्य प्रहरा श्रीकृष्णस्य प्रहारेण चाणूरो भिन्नमस्तकः उद्वमन् रुधिरं राजन् सद्यो वै निधनं गतः तथैव मुष्टिकं मल्लं मुष्टिभिर्युधि दुर्गमं धृत्वाङ्क्रौ भ्रमयित्वा के बलदेवो महाबलः पादयामास भूपृष्टे भणिनं गरुडो यथा मुष्टिको निधनं प्राभप्रोध्वमन् रुधिरं मुखाद कूडं समागदं वीक्ष्य बलदेवो महाबलः मुष्टिना पादयामास वज्रेणेन्द्रो यथा गिरिम् प्राप्तम् शलम् नन्दसूनुर्लप्तया तम् तताडः तीक्ष्णया तुण्डया राजन् गदृजम् गरुडो यथा गृहीत्वा तोशलम् कृष्णो मध्य दत् संविदार्य प्राक्षिपकं स मञ्जाग्रे विटपम् सिन्धूरो यथा ये देनिपातिदारङ्गे सद्यो वै निधनम् गताः तेषाम् ज्योतीम् शिवैकुण्ठे विविश्यु पश्यताम् सदाम् एवम् श्रीरामकृष्णाभ्याम् मल्लेषु निगदेषु च शशा प्रदृद्रुवुर्मल्लाभयार्ताजीवने चया श्रीदामादिम्ब यस्यांश्च गोपानाकृष्यमाधवः तैः सार्धं रामकृष्णौ सहार्भकैः विहरन्तौ वीक्ष्यरङ्गे विसि स्मुः साधु साध्विधि वादो भून्ने दुर्दुन्दुभयस्ततः स्वस्याजयं वीक्ष्य कंसो वर्जयित्वा तूर्यकोशं प्राह प्रस्फुरिदाधरः कंस उवाच दुर्बुद्धियुक्तौ वसुदेवनन्दनौ प्रहस्य निःसारयताशु हरम् तु सर्वम् व्रजवासिनाम् धनम् बध्ने धनं दम् सहसादि दुर्मदिम् अद्योऽग्रसेनस्य पितुकुबुद्धेः शौरे शिरश्चाशुहि चिन्दिचिन्दि कौ यत्र तत्रापि तथात्र वृष्णिजादांशुरां शान् किल सूदयध्वम् श्रीनारद उवाच एवं विगद्धमानस्य कंसस्य यदुनन्दनः सहस्रोत्पत्यतं मञ्जमाजूहत्प्रोधपूरितः मृत्युं समागतम् वीक्ष्य मञ्जादुद्धाय सत्वरम् मदोद्धदो भर्सयं स्तम् जगृहे खड्गचर्मणि अग्रहीत् यथा तुण्डविभागाभ्यां सविशम् भणिनम् विराड पतत्खड्गच्छलच्चर्मा भुज बन्धाद्बलाद् बली विनिर्ययौ तार्श्यतुण्डात् पुण्डरीको यथा भनी मञ्जे तौ बलिनौ वेगान् मर्दयम् तौ परस्परम् शैलशृङ्गे यथा सिंहौ शुशुपादे यथा तदम् दं। उत्पतन्तम् बलात् कंसम् शतहस्तम् महाम्बरे अग्रहीच्योत्पदन् कृष्णश्येनम् श्येणो यदाम्बरे गृहीत्वा भुजदण्डाभ्याम् प्रचण्डम् दैत्यपुङ्गमम् त्रैलोक्यबल धृग्देवो भ्रमयित्वा त्विदस्तदः आकाशात् पादयामास मञ्जोपरिरुषान्विदः भग्नदण्डो भवन्मञ्चस्तडित् पादे यद्धाद्रुमः पतितोऽपि स वज्राङ्ग किञ्चिद्दुव्याय कुलमानसः सहसोद्धाय युयुधे श्रीकृष्णेन महात्मना नीत्वा तं भुजदण्डाभ्यां मञ्जे पुनः पुनः आरुह्य हृदयं तस्य मौल्यं च ग्राहमाधव सद्यप्रगृह्य केशेषु रङ्गोपरिहरि स्वयम् मम् चातम् पादयामासशैला गम् द शिलामिव तस्योपरिष्टाच्छ्रीकृष्णसर्वाधारसनादनः निपपाद स्वयम् वेगादनन्दो नन्दविक्रमः युद्धम् द्वयोर्निपातेन निम्नम् भूखण्डमण्डलम् स्थालीव सहसा राजम् च कम्बे सम्परेदम्भोजराजम् भूमौतम् विजकर्षः यथा मृगेन्द्रो नागेन्द्रम् सर्वेषाम् पश्यता नृपम् काककारस्तदैवासी धावदाम् भूभुजाम् नृप वैरभावेन देवेशम् भजन् कंसो महाबलः जगामतस्य सारूप्यम् भृङ्गिणकीटको यथा कंसम् प्रपदिदम् दृष्ट्वा भ्रातरोष्टौ महाबलाः सुनामसृष्टिन्यग्रोध तुष्टिमद्राष्ट्रपालकाः सुहुना कङ्गशं कुभ्यां क्रोधप्रस्फुरिदाधरः खड्गचर्मधर योद्धुं कृष्णोपरिसमाययुहि वीक्ष्य तान्मुद्गरं नीत्वा रोहिणीनन्दनो बलः आराचकार हुङ्कारम् यथा सिंहो मृगान् प्रदि हुङ्कारेण इव शस्त्राणि तेषाम् हस्तेभ्य आभयाद प्रेदुराम्रफलानिव दण्डकादैश्च मैथिल निःशस्त्रास्त्रे महावीरामुष्टिभिः सर्वदो बलम् ते दुःशैलम् यथा नागा शुण्डा दण्डैरितस्ततः सृष्टिम् तथा सुनामानम् मुद्गरेण बलोहनद न्यग्रोधम् भुजवेगेन कम् कम् वामकरेण वै शङ्कुं सुहुम् तुष्टिमं तम् वामपादेन माधवः दक्षिणेन पादेन अष्टौ निपेदुसहसवृक्षा वादहदा इव तेषां ज्योतिर्भगवति दीनं जातं विदेतराट देवबिन्दुभयो ने दुर्जयध्वनिरभूतद्धा सद्यो वैववृषुर्देवाः पुष्पैर्नन्दनसम्भवैः विद्याधर्यश्च गन्धर्व्यो ननृतोर्हर्षविहुलाः विद्याधरश्च गन्धर्वा किन्नरास्तद्यशो जगुः ब्रह्माद्यामुनयसिद्धाभिमानायैर्द्रष्टु गा द्रष्टुमागताः तुष्टुवो रामकृष्णौ तौ वाग्विश्रुतिपरायणाः ताण्डव्यं उरो द्य उरोहस्तै अतिप्राप्त्यादयस्त्रियः विनिर्गतास्त रुरुदुर्जातवैधव्यदुःखिताः श्रियऊचुः हानाधगे युद्धपदे क्व गदोऽसि महाबला त्रैलोक्यविजयी साक्षात् देवानामपि दुर्जयः जातमात्रा स्वसुपुत्रा निर्भृणेन त्वया कदा अनिर्दशा निर्दशाश्च परे विनिकदा बलादे तेन पापेन घोरेण दशामेदादृशीं गतः श्रीनारद उवाच माश्रुमुकीर्दीना आश्वास्य नृपयोषितः विधाय यमुनातीरे चिदा श्रीखण्डसंयुधाः हा न कारयित्वा सौ क्रियां वै पारलौकिकीं सर्वान् सम्बोधयामास भगवल्लोकभावनः यदि श्रीगर्गसंहितायाम् मधुराखण्डे श्रीनारदबहुलाश्वसंवादे कंसवधो नाम अष्टमोऽध्यायः ओ अध्यायम् नैन् श्रीनारद उवाच अथ देवौ रामकृष्णौ देवगी वासुदेवयोः समीपं जग्मधुःसाक्षात् वृष्णीभिः परिवारितौ स्वतस्तयोर्बन्धनानि ययुशिथिलतां नृप तौ वीक्ष्यगरुडम् प्राप्तं नागपाशगुणायधा स्वप्रभावविधौ वीक्ष्यपितरौ सबलो हरिः सद्यस्तदा नः स्वामायाम् जगन्मोहपरीम् बलाद रामकृष्णौ सुतौ ज्ञात्वा शौरिर्मोहसमाकुलः देवक्या सहासोद्धाय सस्वजे चाश्रु पूरितः तावाश्वास्य हरिः सद्यो वृष्णिभिपरिवारिदः मादामहं तूग्रसेनं चकार मधुराधिपम् आहूय यादवान् कंसभयाद्देशान्तरं गदान् प्रेम्णान्निवासयामास सकुटुम्बान् यदोः पुरी नन्दराजं गोपगणैः स्वगृहान् गन्तुमुद्यतम् न त्वा तं सबलः प्राह मोहयन्निव अत्रैव वासं पुर्यां गन्तुं यदीच्छामनसोद्धृता स्यादपश्चादहं वै सबलो यदुन्वा विधाय पार्श्वं तव चागमिष्ये श्री श्रीनारद उवाच एवं श्रीरामकृष्णाभ्यां नन्दराजप्रभोजितः आलिङ्गशौर्यं गोपालैर्ययौ प्रेमादुरोव्रजं दत्तं श्रीकृष्णजन्मर्क्षे धेनूनाम् नियुतं पुरा ब्राह्मणेभ्यो ददौ शौरिर् वस्त्रमालास्वलङ्कृतं शौर्यर्गर्गं समाहूय श्रीकृष्णबलदेवयोः यज्ञोपवेदं विधिवत्कारयामास धर्मविद रामकृष्णौ सर्वविद्याध्ययनं कर्तुमुद्यतौ गुरो सान्दिपने पार्श्वम् जग्मदुर्जनवत्परौ कृत्वा परां गुरो सेवां लघुकालेन माधवौ सर्वविद्यां जगृहदुःसर्वविद्याविदाम्बरौ गुरवे दक्षिणां दादुमुद्यतौ तौ कृताञ्जलि मृतं पुत्रं दक्षिणायां ताभ्यां वव्रे गुरुर्द्विजः रथमारुह्य तौ दान्तौ शादकुम्भपरिच्छदं प्रभासे चाब्धिनिकटं जग्मदुर्भीमविक्रमौ सद्यप्रकम्पितः सिन्धुरत्नोपायनमुत्तमं नित्वा तच्चरणोपान्ते निपपादकृताञ्जलिः तमाह भगवञ्चीक्रं पुत्रं देहि गुरोर्मम प्रचण्डोर्मिकडाढोपैस्त्वया तद्ग्रहणं कृतं समुद्र उवाच भगवन्देवदेवेश नमया बालको हृदः हतपञ्च जनेनासौ शङ्करूपा सुरेण वै वसन् सदा मधुदरे बलिष्ठो दैत्यपुङ्गवः जेतुम् योग्यस्त्वया देव देवानाम् भयकारकः श्रीनारद उवाच तेनोक्तो भगवान् कृष्णो वासो बद्ध्वा तडौ निपपादमहागात् समुद्रे भीमनादिनि श्रीकृष्णस्य निपादेन त्रिलोकी भारधारिणः सकम्पेब्धिर्भृश्यं वज्रकूटेनेव विदेहराट ततः दैत्यो योद्धुं श्रीकृष्णसम्मुखे आगतसहसा वीरशूलम् चिक्षेप माधवे हस्ते गृहीत्वा तच्छूलम् तेनैवाभिजकानतम् तत्कादेन प्रपदितो मूर्चिदो वारिमण्डले सहसोद्धाय देवेशम् किञ्चिद् व्यायाकुलमानसः मूर्धना तदाडभक्षीन्द्रं स्वफणेन फणी यथा परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् हरिः क्रुद्धो मूर्धनिवेगेन मुष्टिना तं तदाडः कृष्णमुष्टिप्रहारेण सद्यो वै निधनं गतः तज्योदिशीप्र नश्यामे लीनम् जातम् विदेहराड एवं हत्वा पञ्चजनम् शङ्खम् नीत्वा तदङ्गजम् महार्नवान् निर्गतो सौ सहसा रथमागमद वायुवेगेन यानेन रामकृष्णौ मनोहरौ जग्मदुःशमनस्यापि दीर्घम् संयमनीं पुरीम् पाञ्जन्यध्वनिर्लोकम् प्रचण्डो मेखघोषवद पूरयामास तम् श्रुत्वा चकम्बे स स भो यमः चतुरशीतिलक्षेषु नरकेषु निबादिताः हैर्ह्यै श्रुता ध्वनिस्ते ते जग्मुर्मोक्षं तु पापिनः यमः सद्यो बलिं नीत्वा श्रीकृष्णबलदेवयोः पपादचरणोपान्दे दर्शितः सन्कृताञ्जलिः यम उवाच हे हरे हे कृपा सिन्धो राम राम महाबल असङ्ख्यब्रह्माण्डपदी परिपूर्णतमौ युवाम् देवौ पुराणौ पुरुषौ महान्तौ सर्वेश्वरौ सर्वजगज्जनेषौ अद्यैव सर्वोपरिवर्तमानौ गिरा निजाज्ञां वददं परेशौ श्रीभगवानुवाच गुरुपुत्रं लोकपाल आनयस्व महामते राज्यं गुरु यथा न्यायं मधुकृतम् आनयन् क्वचिद श्रीनारद उवाच तथैव तेनोपानीतं गुरुपुत्रं हरिस्वयं गृहीत्वा वन्दिकामेत्य ददौ श्रीगुरवे शिशुं गुर्वाशिषा संयुतौ तौ नत्वा तं हि कृताञ्जलि रथमारुह्य मधुरामागतौ यदुपूजितौ एकदासबलकृष्णसर्वकारणकारकः पाण्डवान् संस्मरन् भक्तानक्रूरभवनं ययौ अक्रूरसहसोद्धाय परिरभ्यमुदान्विदः उपचारयिषोडशभिः पूजयित्वाथ तौ नृप कृताञ्जलिपुरस्थित्वा जादपूर्णमनोरथः उवाचानन्दजनिताम् मुञ्जन् बाष्पकलां नृप अक्रूर उवाच युवाभ्याम् रामकृष्णाभ्याम् ताभ्याम् नित्यम् नमो नमः याभ्याम् मार्गे यदुक्तं मे पूर्णम् तच्चकृतम् प्रभु लोकाभिरामौ जनभूषणोत्तमौ चान्दर्बहिः गो विप्र साधुश्रुतिधर्मदेवता रक्षार्थमद्यैव येधोकुरे गतौ कंसादिदैत्येन्द्रविनाशहेतवे गोलोकलोकात् परिपूर्णतेजसौ समागतौ भारतभूमिमण्डले युवां परेश्यौ सततं नदोऽस्म्यहम् श्रीभगवानुवाच त्वमार्यवृद्धो धृतिमानहं तव पुरःशिशुः सन्तो नः स्वात्मनश्लाघ्यं कुर्वन्ति हि महामदे पाण्डवानां हि कुशलं द्रष्टुं गच्छ गजाह्वयम् शीघ्रमागच्छ तान् दृष्ट्वा सर्वान् दानपदे भवान् श्रीनारद उवाच एवमुक्त्वा तदा क्रूरं भगवान् भक्तवत्सलः सबलशौरिभवनमाययौ सर्वकार्यकृत कौरवेन्द्रपुरं गत्वा क्रूरो दृष्ट्वाद ध पुनरागत्य कृष्णाय वार्तां सर्वामवर्णयद अक्रूर उवाच विना युवां कोऽपि न पाण्डवानां सहाय्यकृत्कौरवदुःखभोगिनां मृतेज पाण्डौ भवदोः पदाम्बुजे विलग्नचित्ता हि श्रीनारद उवाच इति श्रुत्वा क्रूरमुखात् श्रीकृष्णो भगवान् हरिः अर्धं राज्यम् पाण्डवेभ्यः कौरवाणाम्बला ददौ अधोक्तम्बजनं स्मृत्वा ततोद्धव समन्वितः महामङ्गलसंयुक्तं कुब्जाया भवनं ययौ दृष्ट्वा राश्रीहरिं प्राप्तं कुब्जारूपवती त्वरं भक्र्या समर्हयामास पाद्याध्यायः प्राणवल्लभम् हेमरत्नकचित्कुड्ये कुब्जाया भवनोत्तमे बभौ हरिरूपवत्या वैकुण्ठे रमया यदा। परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयं यस्या पदिदर्ह यस्या पदिरभूद्राजन्नहो तस्यास्तभो महद तत्र स्थित्वा हरिर्देव दिनान्यष्टौ लीला मानुषविग्रहः इति श्रीकृष्णचरितम् मधुरायाम् विदेहराड सर्वपापहरम् पुण्यमायुर्वर्धनमुत्तमम् चतुष्पदार्थतम् नॄणाम् श्रीकृष्णवशकारकम् मया ते कथितम् पृष्टम् किम् भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायाम् मधुराखण्डे श्रीनारद बहुलाश्वसंवादे यदुसौख्यम् नाम नवमोऽध्यायः ओ अध्यायम् टेन् बहुलाश्व उवाच श्रीकृष्णचरितम् पुण्यम् मया तव मुखाच्छ्रुदम् पुनः श्रोतुम् मनश्चाद्य तृषितो वा जलम् गतः कंसस्य जन्मकर्माणि त्वयोक्तानि श्रुतानि मे केश्यादिदैत्यवर्याणां पूर्वजन्मकृतं श्रुतं कोयं तु रचकः पूर्वमवधीद्यं हरिकथम् अहो यस्य महाज्योतिकृष्णे लीनं बभूवः श्रीनारद उवाच त्रदायुगे त्वयोध्यायाम् रामराज्ये विदेहराड चाराणाम् शृण्वदाम् कश्चिद्रजको ह्यवदत्प्रियम् नाहम् बिभर्मित्वाम् त्वाम् दृष्ट्वा मुषदीम् परवेष्मगाम् स्त्रीलोभी बिभ्रूयात्सीदाम् रामो नाहम् भजे पुनः यदि लोकात् बहुमुखाद्वाक्यम् श्रुत्वाधराघवः सीताम् तत्याजसहसवने लोकापवादः तस्मै दण्डम् दातुमिच्छाम् न चक्रे राघवोत्तमः मधुरायाम् द्वापरान्ते रचकः स तं जगानहरिं स्वयं तदभिप्रददौ मोक्षं तस्मै श्रीकरुणानिधिः दयालो कृष्णचन्द्रस्य चरितं परमद्भुतं यदत्ते कथितं राजन् किं भूय श्रोधुमिच्छसि बहुलाश्व उवाच पुरा वै वायककोयं नितरां मुनिसत्तम यस्मै ददौ च सारूप्यं श्रीकृष्णो भगवान् हरिः श्रीनारद उवाच नगरे पूर्वं वाय्यको हरिभक्तिकृत श्रीरामोद्वाहसमये समये नृपाज्ञया रामलक्ष्मणवेषार्थं वासं शिरजयन् किल लघुसूत्रैः परिवयन्कुशलो वस्त्रकर्मसु कोडिकन्दर्पलावण्यौ सुन्दरौ रामलक्ष्मणौ तौ वीक्ष्य वायवो राजन्मोहितो भून्महामनाः अहं स्वहस्तैर्वस्त्राणि तयोरङ्गेषु सर्वतः परिधानं कारयामि चक्रे चेद्धं मनोरथम् मनसापि वरं रामो ददौ तस्मा अशेषविद द्वापरान्ते भारते जविष्यदि मनोरथः श्रीरामस्य वरात्सोऽयं मधुरायाम् बभूवः तयोर्वेश्रं कारयित्वा तत्सारूप्यं जगामः बहुलाश्व उवाच सुधाम्ना मालिना ब्रह्मन् किं कृतं सुकृतं वद यद्गृहम् जग्मदुःसाक्षाद् रामकृष्णौ मनोहरौ श्रीनारद उवाच राजराजवनम् रम्यम् नाम्ना चैत्ररथम् शुभम् तस्य वै पुष्पबटुको विष्णु दानी सत्संग हेममालिदिनामभाक विष्णो विष्णु देव प्राप्त्यर्थं देवप्राप्त्यर्थं देवपूजां चकारः समास् पञ्चसहस्राणि पद्मानां च शतत्रयम् नित्यं नीत्वा दुर्जडये पुरो धृत्वा प्रसन्नो जगदात्रिप्रसन्नो भगव करुणानिधिः मालाकारमहाबुद्धेवरं ब्रूहीत्युवाचः हेममाली तदा देवं नमस्कृत्य कृताञ्जलिः प्रदक्षिणीकृत्य पुरस्थित्वा प्राहनदाननः हेममाल्य उवाच परिपूर्णतमं कृष्णं क्वचिन्नो गृहमागतं पश्यामि दृग्भ्यां तं साक्षात् त्वद्वरेण भवेदिदं श्रीमहादेव उवाच द्वापरान्ते भारते च मधुरायां महामदे मनोरधस्ते सफलो भविष्यदि न श्रीनारद उवाच महेश्वरवरेणासौ हेममानी महामना मालाकारोद्वापरान्धे सुदामा सं बभूवः तस्मादस्य गृहं साक्षात् जग्मधुरामकेशवौ शिववाक्यामृतं कर्तुं किं भूय श्रोतुमिच्छसि श्री मधुरा श्री नारद इति रचक वायक सुदामो पाख्यानम नाम दशमोऽध्यायः ओम् अध्यायम् 11 बहुलाश्व उवाच सैरन्ध्र्या कृदं पूर्वं तपः परमदुर्घटं येन प्रसन्नश्रीकृष्णो देवैरपि सुदुर्लभः नारद उवाच पञ्चवट्यास्थितं रामं सन्निभं वीक्ष्य शूर्पणकानाम्नी राक्षसी मोहिदाभृशं निर्मोहं राघवं दृष्ट्वा धैक पत्नी क्रोधात्सीतां भक्षयितुं धावती रावणस्व सा खड्गेन शिदधारेण लक्ष्मणो राघवानुजः जहार जाहा। तस्याकर्णौ च नासां रुषान्विदः खिन्ननाः सा गदा लाम् जगाम विमना भृशम् तपश्चक्रे शूर्पणखा जले ध्यायन्ती देवं श्रीरामं श्रीरामम् तदप्रसन्नो भगवान् देवदेव उमापदिः एत्य तत् पुष्करं तीर्थं वरं ब्रूहीत्युवाचः शूर्पणकोवाच श्रीरामो मे वरो भूयद्वरं देहि सतां प्रियः त्वं देवदेव परमसर्वासाम् आशिषाम् प्रभुः श्रीशिव उवाच अद्यैव सफलो नस्याध्वरस्थे शृणुराक्षसी द्वापरान्ते माधुरे च भविष्यदि संशयः श्रीनारद उवाच सैव चूर्पणकानामराक्षसी कामरूपिणी अभूत् श्री, श्री का नाम महात्मदे महादेववरेणापि श्रीकृष्णस्य प्रिया भवद इदं मया ते कथितं किं भूय श्रोतुमिच्छसि बहुलाश्व उवाच कोयं कुवलया पीठपूर्वजन्मनि नारद कथं गजत्वं आपन्न श्रीकृष्णे लीनताङ्गदः श्रीनारद उवाच बलिपुत्रो महाकायो नाम्ना मन्दगतिर्बली सर्वशस्त्रभृदां श्रेष्ठो लक्षनागसमो बली, लक्षनाग बली एकदा निर्गधसोऽपि रङ्गयात्रां जनेषु च मत्तेभवज्जनान्वेगाद् भुजाभ्यां परिमर्दयन् तद्बाहुवेगात्पतिधपतिवृद्धस्त्रितो मुनिः क्रुद्धशशापतं मत्त्वं बलिष्ठं बलिनन्दनं स्त्रित उवाच गजवत्त्वं भूर्जनान् परिमर्दयन् विचरन् त्वं गजो भवदुर्मदे एवम् शप्तस्तदा दैत्यो नाम्ना मन्दगतिर्बली पतकञ्चुकवद्देशो भ्रष्टतेजा बभूवः मुने प्रभाव प्रभाववित्सद्यो दैत्यो भूत्वा कृताञ्जलिः नत्वा प्रदक्षिणीकृत्य त्रिदं मुनिमुवाच मदङ्गदिरुवाच हे मुने हे कृपासिन्धो त्वं योगीन्द्रो द्विजोत्तमः गजत्वान्मे कदा मुक्तिर्भविष्यदि वदाशु मां त्वादृशानां सदां मा भूत्फेलनं मे क्वचिन्मुने त्वादृशा मुनयो ब्रह्मन् समर्था वरशापयोः श्रीनारद उवाच एवं प्रसादितस्ते न त्रितो नाम महामुनिः गतक्रोधो ब्रवी दैत्यं कृपालुर्ब्राह्मणोत्तमः त्रुत उवाच वचनं मे मृषानस्य त्वद्भक्त्या हर्षितोऽस्म्यहं दिव्यं देवानामपि दुर्लभम् माशोकं गुरुदैत्येन्द्रमधुरायां हरे पुरि श्रीकृष्णहस्तान्ते मुक्तिर्भविष्यति न संशयः श्रीनारद उवाच सोऽयं मन्दगतिर्दैत्यो गजो भूद्विन्ध्यपर्वते लालक्षगजैर्वने सोऽयं दत्तस्तु कंसाय पारिबर्हे विदेहराटतवाक्या तस्य धाम श्रीकृष्णे लीनदां गदम् इदं मया ते कथितं किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायां मधुराखण्डे श्रीनारद कुवलया बहुलाशसंवा कलडवर्णन नामि पादशोध्याय नाम पूर्व जन्म कथा बहुलाश्व चाणूराद्या मल्लास्ते के पूर्विहा अहो श्रीकृष्णचन्द्रेण एषां युद्धं श्री नारद उवाच राजन्पुरामरावत्यामुदद्भ्योऽस्ति महामुनिः तस्या भवन् पञ्चपुत्रा कामदेवसमप्रभाः हित्वा विद्यां चाध्ययनं जपं तेन सहैव ते गत्वा बलेर्मल्लयुद्धं सदा शिक्षन्मदोद्धदाः ब्रह्मकर्मपरिभ्रष्टान् वेदाध्ययनवर्जितान् रुषाप्राहस तन्मात् रुषाप्राहस तान्मस्तानुदध्यो मुनिसत्तमः उदध्य उवाच शमोदमस्तपः शौचं क्षान्दिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावजं शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनं दानमीश्वरभावश्च क्षास्त्रं कर्मस्वभावजं कृषि गोरक्ष्य वाणिज्यं वैश्यकर्मस्वभावजम् परिचर्यात्मकम् कर्म शूद्रस्यापि स्वभावजम् ब्रह्मकर्म परित्यक्ता भवन्तो ब्रह्मणः सुताः मल्लयुद्धम् क्षात्रयुद्धं कथम् दुर्जनाः तस्माद् भवन्तो श्रूया सु मल्ला वै असुराणां प्रसङ्गेन दुर्जना भवदासुहि श्रीनारद उवाच उदभ्यस्य सुधास्ते वै जादामल्या महीतले श्रीकृष्णाङ्गस्पर्शमात्रात् परं मोक्षं ययुर्नृप चाणूरोमुष्टिखकोडशलस्तोशल एव च येषां चरित्रं कथितं किं भूय श्रोतुमिच्छसि बहुलाश्व उवाच कंसानुजाभ्रादरोष्टौ कङ्कण्यग्रोधकादयः ते के पूर्वं वदमुनेयेऽपि मोक्षं परं गदाः श्रीनारद उवाच अलकायां पुरा यक्षो देवयक्ष इति स्मृतः ज्ञानी ज्ञानपरो मान्यशिवभक्त्या महाद्युदिः तस्य चाष्टौ सुता जादा देवकूडो महागिरिः गण्डो दण्डप्रचण्डश्च खण्डदण्डप्रधुस्तधा एकदा शिवपूजायां देवयक्षेणनोदिताः सहस्रं पुण्डरीकाणि मरुनोदये। पुष्पाणि मानसान्नित्वा शब्दिदानि मधुव्रतैः आघ्राय गन्धलोभेन ददुस्ते जनकाय वै उच्छिष्टीकृतदोषेण शिवपूजातिरस्कृता आसुरीं योनिमापन्नामूढास्ते जन्मभिस्तृभिः हस्ताभ्यां शङ्कराभ्यां च बलदेवस्य मैथिल परं मोक्षं वै दोषान्मुक्ता विदेहराट कंसानुजानां व्याख्यानं पूर्वजन्म भवं नृप इदं मया ते कथितं श्रीबहुलाश्व उवाच कोयम्पुरा पञ्चजनो दैत्यशङ्खवपुर्धर तस्य शङ्खो बभौ ब्रह्मन् श्रीकृष्णकरपङ्कजे श्रीनारद उवाच पुरै वैतान्युपाङ्गानि चक्रादीनि विदेहराड त्रैलोक्यनाथस्य हरेर्बभूवुस्तेजसा हदाः तेषां शङ्खः पाञ्चजन्यः प्राप्तो राजन्म तत्पदं पपौ तन्मुखलग्नोक्षौ श्रीकृष्णस्याधरामृतम् अगरोच्चैकदामानं मनसि प्राह शङ्खराड गृहीतोऽहं हि हरिण राजकंस समद्युधिः श्रीकृष्णो दक्षिणावर्तं दौ मां विजये सदि यद्दुर्लभम् चाब्धिपुत्र्याः श्रीकृष्णस्याधरामृतं तत्तस्मात् सर्वमुख्योऽस्मि पिबाम्यहमहर्निशम् इनि इति मानयुक्तम् इति मानयुधं शङ्घं पाञ्चजन्यं विदेकराट शशापलक्ष्मीस्तं क्रोधात्वं दैत्यो भवदुर्मदे सोऽयं पञ्चजनो नाम दैत्योऽभूत् सरितां पतौ वैरभावेन देवेशम् पुनः प्राप्तो दरेश्वरः ज्योतिर्लीनं तु देवेश्ये वपुरस्य वपुर्यस्य करे भौ अहो भाग्यं विद्धि तस्य किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायां मधुराखण्डे श्री नारद श्रीनारदबहुलाश्वसंवादे चाणूरादि कंस भ्रातृ पञ्चजनपूर्वाख्यानम् नाम द्वादशोऽध्यायः ओम् अध्यायम् तर्टीन् बहुलाश्व उवाच अग्रे चकार किम् कार्यम् मधुरायाम् यदुत्तमः निवासयित्वा स्वज्ञादीन् वदै तन्मुनिसत्तमा श्रीनारद उवाच परिपूर्णतमसाक्षाद्भगवान् भक्तवत्सलः सस्मारगोकुलं दीनं गोपगोपालसङ्गुलम् एकदाहूय रहसि सखायं भक्तमुद्धवम् उवाच भगवान् देवः प्रेम गद्गदया गिरा श्रीभगवानुवाच गच्छ शीघ्रम् व्रजम्भे सखे सुन्दरम् श्रीलताकुञ्जपुञ्जादिभिर्मण्डितं शैलकृष्णप्रभाचारुवृन्दावनम् गोपगोपीगणैर्गोकुलं सङ्कुलम् यकपत्रं तु नन्दाय वैदीयतां वा द्वितीयं यशोदाकरे चैव भोः वा तृतीयं राधिकायै सखे तत्र गत्वा हि तन्मन्दिरं सुन्दरं वाचतुर्थं सखिभ्य शिशुभ्य शुभं कौशलं दीयतां पत्रमेवं पृथग्भो सखे गोपिकानां सदेभ्यश्च युतेभ्य उन्मोहितानां च देयानि पत्राणि च मेपिदानन्दराजोघृणीमन्मना मे च मादायशोदा स्मरत्याशु मां वाक्यवृन्दैषु भैर्नीधिवित्वं तयोर्मे परां प्रीतिमाराध्वयोरावः मत्प्रिया राधिका मद्वियो गातुरा मन्यते मां विनाकं जगन्मोकतः मद्वियोगाधिमस्यामधुखदै पदाैर्मोचय त्वं भवान् दक्षिणो वाक्पथे गोप बालास्सुधामादयो मत्प्रिया मां सखायां विना ते विमोहातुराः देहि तेषां सुखं मित्र वश्रीव्रजे स्वल्पकालेन तत्रागमिष्याम्यहं गोपिका मन मन् मत् प्तदेहासवः यामदर्तेज च सन्ध्यक्तलोकाबलस्ताः कथं नात्र मन्त्रिन् बिभर्मिस्वतः ता असून्ध्यक्तो मत्रोद्यदा उद्धव याभिरद्याभिकृच्रै हृददाश्चासवः मद्वियोगाधिमासां मदुःखदपदैर्मोचय त्वं भवान् दक्षिणो वाक्पथे येन पूर्वं व्रजादागदोहं सकेदं रथं साश्वसूथं ऋणत्कण्डिकं वै मेजसारूप्यमद्यैव पीताम्बरं वैजयन्ती सहस्रच्छदं पङ्कजम् कुण्डले दिव्यरत्नप्रभामण्डिते कोडिबालार्कदीप्तं मणिं कौस्तुभं मे महानादिनीं चारुवंशीं शुभां पुष्पयुक्तां च यष्टिं जगन्मोहिनीं चन्दनं सुन्दरं दिव्यगन्धावृतं बर्हमल्लादिवर्षं कोणन्नूपुरं मौलिमेवम् गृकाणाङ्गदेव उद्धव गच्छ गच्छाशु चाद्यैव मध्वा कृतः श्रीनारद उवाच इत्युक्त उद्धवशीक्रं नमस्कृत्य कृताञ्जलिः कृष्णं प्रदक्षिणी कृत्य रथारूढो व्रजं ययौ कोडिश कोडिशो यत्र यत्र मनोर्हराः श्वेतपर्वतसङ्काशदिव्यभूषणभूषिताः पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युधाः स वत्सापितपुच्छाश्च व्रजन्त्यो भव्यमूर्तिकाः खण्डामञ्जीरच्छङ्गार किङ्गिणीजालमण्डिताः हेमतुल्या हेमशृङ्गो रमाला स्फुरत्प्रभाः पाडला हरिदास्ताम्रा पी दाश्यामा विचित्रिताः धोम्रा कोकिलवर्णाश्च यत्र गावस्त्वनेकथा समुद्रवद्दुग्धदाश्च तरुणीकरचित्रिताः कुरङ्गवद्विलङ् बद्भिर् गोवत्सैर्मण्डिता शुभाः इतस्ततश्चलं तश्च गोगणेशुमहावृषाः दीर्घकन्धरशृङ्गाढ्यायत्र धर्मधुरन्धराः गोपालाव्यत्रहस्ताश्च श्यामवंशीधराः पराः कृष्णलीला प्रगायन्दो रागैर् दुरास्तमागतं वीक्ष्य ज्ञात्वा कृष्णं व्रजार्भकाः ऊजु परस्परं देवै कृष्णदर्शनलालसाः गोपा ऊजुः नन्दसूनुकिलायादिसखायोयं न संशयः मे कस्यामपि दवासास्रग्वी कुण्डलमण्डितः कौस्तुभि कौ कुण्डलीं बिभ्रत् स सहस्रदलपङ्कजं तदेव मुकुडं बिभ्रत् कोडी मार्दण्डसन्निभं तयेवाश्वारथ सोऽयं पिङ्गिणीजालमण्डितः बलो नास्ति रथे चास्मिन्नेकाकी नन्दनन्दनः श्रीनारद उवाच एवं वदन्तो गोपालाः श्रीदामाद्याविदेहराड कृष्णाकृतिं कृष्णसख सर्वदो रथं कृष्णो नास्तीति वदध कोऽयं साक्षात् तदाकृतिः तन्नामस्कृत्य उपगवि परिरभ्यावदत्पथि उद्धव उवाच गृहाणपत्रं श्रीदामन् कृष्णदत्तं न संशयः शोकम्मा गुरुगोपालहै कुशल्यास्ते हरिः स्वयं यादवानां महत्कार्यं कृत्वा धसबलः प्रभुः ह्रस्वकालेन छात्रापि भगवानागमिष्यति श्रीनारद उवाच पठित्वा तद्धस्तपत्रम् श्रीदामाद्या व्रजार्भकाः भ्रशमश्रूणि मुञ्जन्तप्राकुर्गद्गदया गिरा गोपुजुः पान्थेदि निर्मोहिनिनन्दसूनौ तनुर्विभूतिश्च धनम् बलं च व्रजेनः शून्यं प्रजातं हि जगत्समस्तं क्षणायुगत्वं च खडिमहामदे त्रयादिमन्वन्तरदां व्रजौघसं यामश्च कल्पं च दिनं विना हरिं वियोगदुःखैर्द्विपरार्थदां गदम् अहर्निशं तं नहि विस्मरामहे दुष्टा फडि सा प्रययौ मनोहरन्नुद्धवनो वनौकसां वयस्य भावेन सदा कृदागसां यदि श्रीगर्गसंहितायां मधुराखण्डे उद्धवागमनं नाम त्रयोदशोऽध्यायः ओम्